वन्देऽहं मङ्गलात्मानम् भास्वन्तम् वेदविग्रहम् याज्ञवल्क्यम् मुनिश्रेष्ठम् जिष्णुम् हरिहरप्रभम् जितेन्द्रियम् जितक्रोधम् सदा ध्यानपरायणम् आनन्दनिलयम् वन्दे योगानन्दमुनीश्वरम् प्रणम् याद्यन्दिनमणिम् योगीश्वरशिरोमणिम् ओम ज्ञवल्यं तछिष्यं कां मुनि ओं श्रीयाजवल्य गगुरुभ्यो नम कण्वकायनाषिभ्यो नम ओावा गणपति हवामे प्रियाण्वा प्रियपति हवामे धीनान्त्वानिधिप्रतिज्ञे हवामहेव सो ममा ॐ पूर्णात् पूर्णमुदच्यते पूर्णस्य पौर्नमादाय पूर्णमेवावशिष्यते शान्तिशान्तिश्शान्तिः ॐवास्यमिरग्यत्किञ्च जगत्या जगति तेन त्यक्तेन भुञ्जीथामादृढः कस्य स्विद्धनम् कह कर्माणि विशेक्षत सहं न्यथेस्ति न कर्मा लिप्यते लोका अंधे न ग्रस्ते प्रेत्याभिगच्छन्ति ये के चात्महनो जनाः अनेजदेकं मनसोजवी यो नैनद्देवा आप्नुवन् पूर्वमर्षत् धावतोऽ्यानत्येतिष्ठत्तस्मिन्नपो मा तदिश्वादधाति त्वदेति तन्नेदति तद्दूरे तद्वन्तिके तदन्तरस्य सर्वस्य तद् सर्वस्यास्य सर्वस्या बाह्यतः यस्तु सर्वाणि भूतान्यात्मन्नेवानुपश्यति सर्वभूतेषु चात्मानन्ततो न विजुगुप्सते यस्मिन् सर्वाणि भूतान्यात्मैवाभूद्विजानतः तत्र को मोहः एकत्वमनुपश्यतः सपर्यगाच्छुक्रमकायमौ व्रणमस्ना विरग्रशुद्धमपापविद्धम् ब्रह्मणिषी परिभु स्वयम्भोर्याथा तच्छतोदधाच्छाश्वतीसमाभ्यः अन्धन्तमः प्रविशन्ति ये विद्यामुपासते ततो भूय इव ते तमोयवो विद्यायाज्ञरताः अन्यदेवाहुर्विद्ययान्यदाहुरविद्यया इति शुश्रुमधीराणा येनस्तद्वी चक्षिरे विद्याञ्चाविद्याञ्चयस्तद्वेदोभयज्ञ सः अविद्यया मृत्युन्तीर्त्वा विद्यया मृतमश्नुते अन्धन्तमः प्रविशन्ति ये सम्भूतिमुपासते ततो भूय इव ते तमोय उसम्भूत्याज्ञरताः अन्यदेवाहुःसम्भवादन्यदाहुरसम्भवात् इति शुश्रुमधीराणा येनस्तद्बीज चक्षिरे सम्भोदिम् च विनाशम् च यस्तद्वेदोभयज्ञसः विनाशेन मृत्युं तीर्त्वा सम्भोत्यामृतमश्नुते गिरण्मयेन पात्रेण सत्यस्यापी हि तम् मुखम् तत्त्वम् पूषन्नपावेणुसत्यधर्मायधृष्टये पूषन्ने करिषेयमसूर्यप्राजापत्यव्योहरश्मि समो मोहते जो यत्ते रूपम् कल्याणतमम् तत्ते पश्यामि रोसा वसौ पुरुषः सोऽहमस्मि युरनीलमममृतमथेदम्भस्मान्तज्ञशरीरम् व्रतो स्मर कृतज्ञ स्मर क्रतो स्मर कृतज्ञ स्मर अग्ने नय सुपथा राये अस्मान् विश्वानि देवमयुनानि विद्वान् युयोस्मद्योहुराणमे नो भूयिष्ठान्ते नम उक्तिम् विधेम ओर्णमदः पूर्णमिदम्पूर्णात्पूर्णमुदच्छते ओर्णस्य पौर्णमादाय पूर्णमेवावशिष्यते शान्ति शान्तिः वो